तन्नो वातोमयोभुवा तु भेषजन्तन्मातापृथि॒वी तत्पिताद्यौ तद्ग्रावाण सोम सुतोमयोभुवस्तदश्विना शृणुतन्धिष्ण्ययुवम् तन्नो वातो मयो वातोमयोभु वातु भेषजन्दन्मादापृथि॒वीदल्पिताद्यौ तदग्रावाणः सोम सुतोमयोभुवस्तदश्विना शृणुतन्धिष्ण्ययुवम् तन्नो तो मयोभुवा तु भेषज॑न्त॒न्मातापृथि॒वी तत्पिताद्यौ तद्ग्रावाणः सोम सुतोमयो भुवस्तदश्विना शृणुतन्धिष्ण्ययुवम्